श्रीमद्भागवत् महापुराणं सप्तमस्कन्ध प्रह्लाद्जी का असुरबालकोको उपदेश प्रह्लाद उवाच कौमार आचरेत् प्राज्ञो धर्मान् भागवतानि ह दुर्लभं मानुसं जन्म तदप्यध्रुमर्थतं यथा हि पुरुषस्येह विष्णोपादोपसर्पणम् यदि सर्वभूतानां प्रिय आत्मेश्वरसृहे सुखमेन्द्रियकं दयत्या देहयोगेन देहिनां सर्वत्र लभ्यते दैवाद्यथा दुःखम् अयत्नतः तत्प्रयासो न यत यत् आयुर्व्यपरं न तथा विन्दते क्षेमं मुकुन्दचरणाम्बुजम् ततो यतेत कुशलः क्षेमाय भयमाश्रितः शरीरं पौरुषं यावन्न विपद्येत पुष्कलं पुंसो वर्षसंह्यायुस्तदर्थं चाजितात्मनः निष्फलं यदसौरात्र्यां शेतेन्ध्रं प्रापितस्तमः मुग्धस्य बाल्ये कौमारे कृणितो जातिविंशतिः दर्याग्रस्तदेहस्य यात्यकल्पस्य विंशतिः दुरापुरेण कामेन मोहेन च बलीयसां शेषं गृहेषु सक्तस्य प्रमत्तस्यापयातिः को गृहेषु उपमां शक्तम् आत्मानम् अजितेन्द्रियः स्नेहपाशे दृढं बद्धमुपस्मुत्सहेत विमोचितम् कोऽन्वर्षतृष्णां विसृजयेत्राणेभ्योऽपि यईप्सितः यं क्रीडात्यशुभि प्रेषये तस्करसेवको बलिं कथं प्रियाया अनुकम्पिताय सङ्गं रहस्यं रुचिरांसि मन्त्रान् त्रिःसृतस्नेहसितशिशूनां कालक्षराणाम् अनुरक्तचित्तः पुत्रान् स्मरस्ताद्वित्रहृदयां भ्रातृंश्च सर्वश्रीर्वापितरौ च दीनौ गृहान्मनज्ञोरुपरीक्षतांश्च वृत्यश्च कुल्यापसुभृत्यवर्गान् तदेकोसंकृतिरेव मुहमानः कर्माणि लोभादवृतिप्तकामः औपस्त्यजयभयं बहुमन्यमान कथं विरज्येतदुरन्तमोहः कुटुम्बपोषाय वियन्निजायो न बुध्यतेऽर्थं विहतं प्रमत्तः सर्वत्र त्रापत्रे दुःखितात्मा निर्विद्यते न स्वकुटुम्बरामः वित्ते सुनित्याभिनिवेष्टविचेता विद्वांसदोषं परिवित्तहर्तुः प्रत्यय चाताभ्यजितेन्द्रियस्त दशान्तकामो हरिते कुटुम्बे विद्वानपित्थं दनुजाकुटुम्बं पुष्णन्विष्टुलोकाय न कल्पते वै या स्वीयपारक्यविभिन्नभावतमप्रपद्येति यथा विमूढ यतो न कथ्येत्कृत कुत्रचिद्वादीनसमात्मानमलं समर्थः विमोचतुं कामदृशां विहार क्रीडामृगो यन्निगडो विसर्गः ततो विदूरात्परिहृत्य दैत्यां दैत्येषु सङ्गं विषयात्मकेषु उपेतनारायणमादिदेवं समुक्तसङ्गैरिसुतोपवर्गः न ह्यच्यं प्रिणयतो बहुवा यासोऽसुरात्मजाः आत्मत्वात् सर्वभूतानां सिद्धत्वादिह सर्वतः परावरेषु भूतेषु ब्रह्मान्तस्थावरादिषु भौतिकेषु विकारेषु भूतेष्वतमहस्तु च गुणेषु गुणसाम्ये च गुणव्यतिकरे तथा एक एव परोषात्मा भगवान् स्वरो व्ययः प्रत्यगात्मस्वरूपेण दृश्यरूपेण च स्वयम् व्याप्यव्यापकनिर्देशो ह्यनिर्देशो विकल्पितः केवला नो भवानन्दस्वरूपः परमेश्वरः मायान्तर्हितैश्वर्य ईयते गुणसर्गदां तस्मात् सर्वे सुभूते सूदयां कृतुसौहृदम् आसुरं भावमुन्मुच्य यया तु स्य त्यथोक्षजः पुष्टे च तत्र किं लभ्यम् अनन्त आद्ये किं ते गुणव्यतिकरादिह मे स्वसिद्धाः धर्मादिय किमु गुणेन च काङ्क्षितेन सारञ्जुषां तरणयोरुपगायतां नः धर्मार्थकाम इति योऽभीतत्रिवर्गम् इच्छात्रयीणेदमौ विविधा च वार्ताम् मन्ये तदेतदकिलं निगमस्य सत्यं स्वात्मार्पणं स्वसृहृदपरमस्य पुंस ज्ञानं तदेतदममलं दुर्वापमाह नारायणो नरसख किल नारदाय एकान्तिनां भगवन्तदकिञ्चनानां पादारबिन्दरजसा प्लुतदेशिनां स्यात् सुतमे तन्मया पूर्वं ज्ञानं विज्ञानसञ्जितं धर्मं भागवतं शुद्धं नारदाद्देवदर्शनात् दैत्यपुत्रावचुः प्रह्लादत्वं वयं चापि नर्तेऽन्यं यद्महे गुरुं। एताभ्यां गुरुपुत्राभ्यां बालानामपिश्वरौ बालस्यान्तपुरस्तस्य न हस्तङ्गो दुरन्वयः छन्दिन संशयं सौम्य स्याचेर्विश्रम्भकारणं देशीमद्भागते महापुराणे पारहंसां चयितायां सप्तमस्कन्धे प्रह्लादानुचरिते षष्ठोऽध्यायः